श्रीहरये नमः अत एकोनविंशोऽध्यायः श्रीशुक उवाच सहित्तमाचरन् कामान् स्त्रैणोपह्नव आत्मनः भूत्वा प्रियायै निर्विण्णो घातामेतामघायता शृणु भार्गव्यमोंघाताम् मद्विधाचरिताम्बुवे धीरा यस्यानुशोचन्ते वने ग्रामनिवासिनः भस्तये को वने कश्चित् विचिन्वन् प्रियमात्मनः ददर्शकूपे पतितां स्वकर्मवस गामजां तस्या उद्धरणोपायं भस्तः कामी तीर्य कूपात् शुश्रोणे तमेव च कमे किल तया वृतं शमुद्विष बह्वो जाकान्तकामिने नावबुध्यता तमेव पृष्टतमया रममाणम् अजान्यया विलोक्य कूपसं विज्ञानां मृष्यभस्तकर्म तत् सं दुर्हृदं सुहृदत्रूपं कामिनं क्षणसौहृदम् इन्द्रियाराममुत्सृज्य स्वामिनं दुःखिताय सोऽपि कृपनस्ताम् कृपणस्तां प्रसादितुं कुर्वन् गिडबिडाकारं नासज्ञोत्पत्तिसन्दितुं तस्या तत्र द्विज कश्चिद् अजास्वां लम्बन्तं मृषणं भूयः सन्ततेर्थाय सम्भतद्वृषणशोऽपि ह्यजया कूपलभ्यत कालं बहुतितं भद्रे कामे रात्याभितुष्यति तथाहं कृपणः शुभ्रू भवत्या आत्मानं नाभिजानामि मोहितस्तव मायया यत्पृथिव्यां बृहीयवं हिरण्यं पशवस्त्रियः न स्यते न जातु कामकामानाम् उपभोगेन साम्यते हविषा कृष्णवर्त्मेव यथा भावं सर्वभूतेष्वमङ्गलं समदृष्टेस्तथा पुंसः सर्वा सुखमया दिशः या, या जीर्यते तां दृष्णां धृतं त्यजेत् मात्रा स्वस्रा दुःखित्रा वाना विविक्तासिनो भवेत् बलवान् इन्द्रियघ्रामो विद्वांसमपि कर्षति पूर्णं वर्ष सहस्रं विषयान् सेवतो सकृते तथापि चानुशवनं दृष्णा ते तस्मादेतामहं त्यक्त्वा ब्रह्मण्याधायमानसम् निद्वद्वन्द्वो निरहङ्कारचरिष्यामि मृगैः सह दृष्टं श्रुतमसद्भुत्वा नानुध्यायेन्न संविशेत् संसृतिं चात्मनासं च तत्र विद्वांस आत्मदृगन् इत्युक्त्वा नागुशो जायां तदीयं पूरवे दत्वा स्वां तस्मात् आदते विगदस्पृहः दिशि दक्षिणपूर्वस्यां द्रुह्यं दक्षिणतो यधुं प्रतीश्चां दुर्वसुं चक्रबुधिश्यामनुमीश्वरं भूमण्डलस्य सर्वस्य पूर्वम् अर्हत्तमं विशाम् अभिषिक्य अग्रजांस्तस्य वशेस्थाप्य वनं ययौ आसेवितं वर्षभूकांशद्वर्गं विषयेषु सः क्षणेन मुमुचे नीडं जातपक्षयिव द्विजः स तत्र निर्मुक्तसमस्तसङ्घ आत्मानुभूत्या विदुदत्रिलङ्गः परेमले ब्रह्मणि वासुदेवले भे कतिं बकवतिं प्रतीतः श्रुत्वा घातां देवयानी मेने प्रस्थोभमात्मनः स्त्रीपुंस्तो परिहासमिवेरितं सं निवासं सुकृतां प्रपायामिव गच्छतां विज्ञाये स्वरतन्त्राणां मायाविरचितं प्रभोः सर्वत्र सङ्गमुत्सृज्य स्वप्नौपं येन कृष्णे कृष्णे मनःसमावेश्य व्यधुनोल्लिङ्गमात्मनः नमस्तुभ्यं भगवते वासुदेवाय भेदसे सर्वभूतानि शान्ताय ृहते नमः इति श्रीमद्भागवते महापुराणे नवमस्कन्ते एकोऽंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनात्मराजकी जय